श्रीमन्महाभारतम् आदिपर्वणि स्वयंवरपर्वणि धृष्टद्युम्नवाक्ये चतुरशीत्यधिकशततमो अध्यायः वैशम्पायन उवाच एवमुक्ताः प्रयातास्ते पाण्डवा जन मे जय राज्ञा दक्षिणपञ्चालान् द्रुपदेनाभिरक्षितान् ततस्ते सुमहात्मानं शुद्धात्मानमकल्मषम् ददृशुः पाण्डवा वीरा मुनिं द्वैपायनं तदा तस्मै यथावत्सत्कारम् कृत्वा तेन च सत्कृताः कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् पश्यन्तो रमणीयानि वनानि च सरांसि च तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः स्वाध्यायवन्तः शुचयो मधुरा प्रियवादिनः आनुपूर्व्येण सम्प्राप्ताः पञ्चालान् पाण्डुनन्दनाः तेतु दृष्ट्वा पुरं तच्च स्पन्धावारम् च पाण्डवाः कुम्भकारस्य शालायाम् निवासं चक्रिरे तदा तत्र भैक्षम् समाजह्नुर्ब्राह्मणीम् वृत्तिमाश्रिताः तान् सम्प्राप्तांस्तथा वीराञ्जज्ञिरे नरा क्वचित् यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने कृष्णाम् दद्यामिति सदा न सः सोऽन्वेषमाणः कौन्तेयम् पाञ्चाल्यो जन मे जय दृढम् धनुरनानम्यम् कारयामास भारत यन्त्रम् वैहाय संचापि कारयामास कृत्रिमं तेन यन्त्रेण समितम् राजा लक्ष्यम् चकारसः द्रुपद उवाच इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः अतीत्यलक्ष्यम् यो वेद्धा सलब्धा वैशंपायन उवाच इति स द्रुपदो राजा स्वयं वरमघोषयत् तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ऋषयश्च महात्मानः स्वयं वरदि दुर्योधन दुर्योधनपुरोगाश्च सकर्णाः पुरवो नृप ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ततोर्चिता राजगणा द्रुपदेन महात्मना उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरं ततः पौरजना सर्वे सागरोद्धूतनिःस्वनाः